मुद्गलपुराणं कण्डं 3 महोदरचरितं अध्यायं फोर्टि फैव् पूर्णानन्दावतारम् श्रीगणेशाय नमः श्रीकृष्ण उवाच ज्ञानारिर्वरसंयोक्तो भवदैत्यै प्रपूजितः शुक्रेणागत्यभिप्रैः सोऽभिषिक्तो राज्यकर्मणि न मुचिषम्भरकालाः सुरश्चैव प्रतापवान् जम्भो बलाः सुरः पञ्चप्रधानास्तस्य चाभवन् नानादैत्यगणैर्युहृतपृथिवीं सप्तसागरां दैत्यो विजिज्ञे सद्वीपां तथा पातालमोजसा तदत्स्वर्गं ययौ दैत्यो दैत्यपैश्च समावृतः इन्द्रसुरगणैः सार्धं पपालभयसङ्कुलः ज्ञानारिसत्यलोकं च ययौ दैत्यसमन्वितः तत्र ब्रह्मस्थितो देवैर्ज्ञात्वा दैत्यं पपाल सह विष्णो वैकुण्ठमुत्सृज्य पपाल च दैत्यस्तत्र समागम्य हर्षितः सं बभूवः दैत्यनायकः शङ्करं प्रणिपत्याः कैलासं देहि प्रभो नो चेद्युद्धेन जेष्यामि त्वामसं नात्र संशयः शङ्करः तथा पपालभयसंयुक्तः सामरः स वनं ययौ दैत्यो ननन्दभृशमोहितः तदस्वर्गेषु दैत्ये स्यान् स्थापयामास निर्भयः ययौ स्वनगरे धर्म दैत्यपैः संमृतो बभौ सुकलायाम् सुमुहूर्ते महातेजा रूपेणाप्रतिमः परः पुत्रजन्मप्रसृष्टः स ददौ दानानि भूमिप जातकर्मादिकं विधिपूर्वकं, सदा कर्मविनाशार्थं प्रेषयामास दैत्यपान, तैः सर्वत्र कृतो नाशकर्मणां भूमिमण्डले न वशत्कारो नस्वधा स्वधा कुत्रचित् प्रभो कर्महीनतया देवा दुःखिता अभवंस्ततः उपोषणसमयुक्ताविचारं चक्रुरादराद ज्ञानारि नाशनार्थाय न ना प्रापुस्ते विचक्षणाः गते बहुतरे काले किं कुर्यामिति विह्वलाः तत्र विष्णुरुवाचेदं वचनं हितकारकं श्रीविष्णुरुवाच चराचरमयं सर्वं तस्मात् तस्य भयं न हि अतो देवा भजामात्र न संशयः स वै बुद्धिपदि बुद्ध्याचित्रं प्रकाशयेत तेन तं निहनिष्यामसिद्धिदादास नो भवेद् विष्णोर्वचनमाकर्ण्य साधु साधु दिवौकसः ऊचुस्तं ते तदो धुण्डिमभजन् भक्तिसंयुधाः दशाक्षरेण मन्त्रेण ध्यात्वा देवं गजाननम् अदुष्यन्नमराः सर्वे विभो नानातपोन्विताः तदे वर्षे गणाधीशप्रसन्नः ससमाययौ रात्रौ स्वप्ने च लक्ष्म्यास्तामुवाच वचनं हितं शृणु मातस्त्वया पूर्वं याचितः पुत्रकाम्यया सोऽकं ते पुत्रभावेन संस्थितः पश्यभामिनि एवमुक्त्वा दर्दधेस्सौ गणेशो गणवल्लभः लक्ष्म्युत्सङ्गे तदो बालो भूत्वा चिक्रीडविघ्नपः जजागार महालक्ष्मीर्गणेशं मनसा स्मरद ददर्श निजशय्यायां बालं शुण्डाधरं परं विस्मिताहर्षिदात्यन्तं नारायणमुवाचः वृत्तान्तं सा महाभागा दर्शयामास विघ्नपं सस्त्रीकः प्रणनां माथ तुष्टावगणपं प्रभुं गाणपत्यायिर्महासूक्तायैर्हर्षयुक्तश्वमाधवः धन्योऽहं सर्वभावेन त्वदङ्घ्रियुगदर्शनाद् युगदर्शनाद मां पालयसि संशयः तदस्तत्रामरा सर्वे मुनयश्च समागताः विस्मितास्तुष्टु गुस्तं ते नानास्त्रोत्रैर्युधिष्ठिर ततस्ते जातकर्मापि चक्रुः परमभाविताः एकादशदिने तस्य मुनयो नाम चक्रिरे साक्षादानन्ददायकः समो द्वन्द्वेषु सर्वेषु तद्विकारविवर्जितः अदो नामास्य देवे श्यात्पूर्णानन्द इति कुरुध्वं सर्वदानन्ददायको नो भविष्यति तथेदि नाम तैः सर्वैः कृतं तस्य महात्मनः चकारव्रतबन्धं च पञ्चमे विष्णुरव्ययः कश्यपश्य गृहे देव्यौ सम्भूते पुत्रिकात्मिके तदो दित्यां तपःसराधिदे विभो तस्मै ददौ मुदायुक्तकश्यपः सम्प्रहर्षितः नम पूर्णानन्दाय विप्रेषो भक्तिसंयुधः द्वादशब्दवयो युक्तो बभूव गणनायकः बालक्रीडनकेनैव मोहयामास देवपान् नपानादिकं तस्य भोजनाच्छादनादिकं लक्ष्मीस्वयं चकारैव हर्षयुक्ते न चेतसा विष्णुस्तं लालयामास नित्यं देवगणैर्वृतः जमातरं कश्यपश्च तथा विप्रैर्युधिष्ठिर ॐ तत्सदिश्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते पूर्णानन्तावतारो नाम पञ्चचत्वारिंशोऽध्यायः ओम्